नमो नमः नमस्कारः नमो नमः सर्वेषां स्वागतम् अस्तु आरम्भं कुर्मः विणा भगिनी प्रार्थनया आरम्भं करोति वा अस्तु भगिनी करिष्यामि हरेः ॐ श्रीगुरुभ्यो नमः शुक्लाम्बरधरम् विष्णुम् शशिवदम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये सरस्वति नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भम् करुष्यामि सिद्धिर्भवतु मे सदा सान्तारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगिहृद्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं हरि ओम् हो धन्यवादा भगिनी धन्यवादाः नमस्ते अस्तु गत गतसप्ताहे गत गतसप्ताहे इति न गतपक्षे अहं चिन्तयामि वयम् एकां कथां पठितवन्तः भयं नश्यति धैर्यात् इति कथायाः नाम स्मरन्ति वा नश्यति धैर्यात् एकवारं स्क्रीन् शेर् कृत्वा पश्यामः एकनिमिषम् भयं नश्यति धैर्यात् धैर्यात् भयं नश्यति इत्युक्ते भयस्य नाशकरणार्थं वश्यकम् आवश्यकता अस्ति धैर्यम् इति धैर्यम् इति आवश्यकम् पश्यन्तु अत्र एकवारं स्क्रीन् पश्यन्तु सर्वे स्मारणं भवति अत्र स्क्रीन् दृश्यते आं दृश्यते भगिनी दृश्यते तत्र एकं राज्यमस्ति तदा तत्र दुर्गम् एक दुर्गस्य पार्श्वे अरण्यमस्ति तत्र एकः असुरः हा तत् सः एकवारं राजानम् उक्तवान् आसीत् तत् राक्षसः तत्र कोऽपि अस्ति वा कोऽपि शूरः मनुष्यः अस्ति वा तत् यदा भवतः राजधान्यां कोऽपि शूरमनुष्यः अस्ति चेत् प्रेषयतु अहं युद्धं कर्तुम् इच्छामि इति सह वदति अनन्तरं किं भवति एकमेकं एकम तत्र एकः तरुणः गतवान् परन्तु सः भीतः अनन्तरं द्वितीयः सः अपि भीतः अनन्तरं प्रतिवर्षे राक्षसः उपस्थितः अनन्तरं सह पृच्छति कूरमनुष्य अस्ति प्रेषयतु नो चेत् अहं नगरं प्रवेशं कृत्वा नगरं नाशयामि नगरस्य नाशं करोमि इति अन्त अन्तिमतः तत्र एकः राजकुमारः आसीत् सः धैर्येण राक्षसस्य समीपे गतवान् परन्तु तत यदा राजकुमारः तत्र पुरतः आगच्छति तदा राक्षसस्य च आकारः क्षीणः जातः अनन्तरं तु सः पृच्छति कः भवान् तत् अन्तिमवाक्यमस्ति अन्तिमतः राक्षसः वदति मम नाम भयम् इति हा तदा वयं चर्चितवन्तः आसीत् भय यत्र भयं वर्तते तत्र किं भवति धैर्यं न भवति परन्तु भयस्य नाशकारणार्थं किम् आवश्यकं धैर्यं धीरवृत्तेः आवश्यकताम् अस्ति इति तत् एव अत्र अस्माकं पाठ्यक्रमे तथैव एकः पाठः अस्ति तत् अस्माकम् अद्यदिनस्य विषयः तदस्ति क्रोधपिशाचः क्रोधपिशाचः पश्यन्तु भयं वा क्रोधः वा ईर्षा तृष्णा एतत् सर्वं किमस्ति दुःखकारणार्थं सर्वेषां भावनानां ग्रहणं भवति यदि दुःखं भवति चेत् तत्र मूलतः किमस्ति तत्र एकं श्लोकः एकः श्लोकः अस्ति भगवद्गीतायां क्रोधात् संजयते कामम् एतत् सर्वम् इत्युक्ते मूलतः अस्माकं या तृष्णा वा अस्माकम् तस्मात् कारणात् एव सर्वेषां दुर्गुणानां जननं भवति अत्र पश्यन्तु अत्र कथा अस्ति क्रोधपिशाचः इति कथायाः पठनं कुर्मः अनन्तरं पश्यामः तदस्माकं पुस्तके एव अस्ति अस्माकं, अस्माकं गीतासोपानं पुस्तके क्रोधपिशाचः इति कथा आरम्भं कुर्मः अम्बिकापतिमहोदय भवान् पठितुं शक्नोति वा पठति क्रोधतिशाचः <coughs> एतां कथां <कताम> पठत <coughs> एकदा श्रीकृष्णः बलरामः सत्यवत् सत्यकिः च सात्यकी सात्यकी तत्र सात्यकी नाम्ना तत् यादवो यादवकुलोत्पन्नः एकः राजा तत् तस्य पुत्रौ मन्ये तत् एक राजा शिबि नाम्ना तत् तस्य पुत्रः सात्यकी यादवकुलोत्पन्नः इति सात्यकी हा सात्यकी <coughs> च वनविहारार्थं गतवन्तः आसन वने ते मार्ग द्रष्टाः गताः जाताः Hmm. निबीडं धनं प्रविष्टवन्तः hmm. रात्रिः रञ्जाता oh, रात्रिः सञ्जाताः तैः रात्रिम् यापनितुम् म् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतीयम् अपतीतम् रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकम् यावत् जागरितः भवेत् hmm. तदा अन्या अन्य अन्याभ्याम् द्वाभ्यां निद्रां कर्तुम् शक्यते इति निश्चितवन्तः hmm. अत्र किमस्ति के के वनविहारार्थं गतवन्तः श्रीकृष्णः बलरामः सात्यके वनविहारार्थं वने विहारं कर्तुं ते गतवन्तः आसन् आसन् इति भूतकालरूपं लङ्लकार वने ते मार्गभ्रष्टाः जाताः मार्गभ्रष्टाः इत्युक्ते किं वक्तुं शक्नोति वा मार्गभ्रष्टः इत्युक्ते योग्यं तत् वने ते मार्गभ्रष्टाः जाताः मार्गतः द्वितीयस्थाने एव ते गतवन्तः तत् यत् इत्युक्ते तत्र किम् अभवत् मार्गस्य विषये कोऽपि दोषः अतः ते मार्गाच्युतः मार्गभ्रष्टाः जाताः निबिडम् वनं प्रविष्टवन्तः निबिडम् निबिडमित्युक्ते निबिडम् वनम् इत्युक्ते डेन्स् फारेस्ट् इति मार्गभ्रष्टाः अतः निबिडं वनं ते प्रविष्टवन्तः अधुना मार्गभ्रष्टाः ते मार्गस्य विषये कोऽपि ज्ञानम् नास्ति रात्र रात्रिसञ्जाताः संजाता रात्रि संजाता नाउ इट इस नईट ती रात्रि यापय यापय अस्सी एव धातु, गर्थे धाते इन शॉर्ट आंग्ल भाषा टू पास द नाइट हाँ रात्रि यापयु एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम् अधुना रात्रौ मार्गक्रमणा भवितुम् न अर्हति अतः कुत्रचित् स्थगनम् आवश्यकम् अतः तैः वृक्षस्य चयनम् कृत्वा तत्र रात्रिं यापयितुं वृक्षस्य अधः उपवेष्टव्यम् आपतितम् उपवेष्टव्यम् आपतितम् इत्युक्ते तत्र अत्र अन्यकोपि विकल्पः नास्ति तत्र एव स्थगनम् रात्रे रात्रेः समयः अतः तत्र एव स्थगनम् एकस्य वृक्षस्य अधोभागे आपतितं किम् आपतितम् इत्युक्ते वोटेवर् व... हेज़् हेपण्ड् इस् नाट् एज़् पर् देर् विश् इत्युक्ते <laughs> देट् वाज़् मेड् टु हेपन् वित् देम् नाट् विल्लिङ्ग् इति यत् न अपेक्षितं तत् घटितम् एतत् न अपेक्षितं परन्तु तत् अतः आपतितम् इति संज्ञा अधुना ते किं चिन्तितवन्तः एकैकः रक्षणम् आवश्यकं तत्र वन्यजीवाः अनन्तरं स्वापदाः तस्मात् रक्षणार्थं किं करणीयं पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इत्युक्ते रग... यदा श्रीकृष्णः जागरितः तदा बलरामः सात्यकी निद्रां तेषां कृते निद्रां शक्यते तथैव यदा बलरामः जागरितः तथा, बलराम तथा रक्ष्मण श्रीकृष्णः सात्तिकी द्वयोः कृते निद्रां सम्भवति एवं सर्वं रात्रौ रक्षणार्थम् एकैक एकैकः एक एक पर्यायरूपेण एकं प्रहरं यावत् जागरितः तेन किं भवति द्वाभ्यां निद्राम कर्तुं शक्यते इति ते निश्चितवन्तः अस्तु एतावत् पर पश्यामः अग्रि अग्रिमे अपि पठति वा इतोपि एकं परिच्छेदं पठति वा अम्बिकापतिमहोदय प्रथमः पर्यायः सात्यकेः आसीत् सः प्रहरी सन् स्थितः यथा अन्यै द्वै निद्राम् कृतवन्तौ यदा वृक्षतः एकः पिशाचः अवतीर्णवान् सः सात्यकिम् मल्लयुद्धार्थम् आहूतवान् बहूनि कटुवचनानि तस्य उतवाकिटुचनादृशन उत्तरा दा पिशाच सातक शरीर मुष्टिप्रहार Uh, मुष्टिप्रहारं कृतवान् तदा मात्यकिः mm -hmm, mm -hmm. तदु uh, mm -hmm. तदुपरि uh, तदुपरि mm -hmm. आदर्प्रहारं uh, कृतवान् पूर्णं प्रहरणं यावत् uh, यतो यतोः मल्लयुक्तं प्राचलत् uh, प्राचलत् तेन सात्यकेः शरीरे बहवः क्षाताः सञ्जातः सञ्जाताः सः नितरां श्रान्तः किन्तु तस्मिन् समये सहयोगिनोः उद्धापनस्य उत्थापनस्य अपेक्षया हाँ, निद्राकरणाम् एव उचितम् इति विचिन्तय स्म सः विचिन्तय सः निद्रां कृतवान् पर्याप्तम् अस्तु अत्र किम् अभवत् तत्र क्रमेण ते चिन्तितवन्तः क्रमेण एकः जागरितः भवेत् अन्येषां कृते निद्रां सम्भवति इति तत् प्रथमः पर्याय तत्र त्रयः जनाः सन्ति श्रीकृष्णः अस्ति बलरामः अस्ति सात्यकी अस्ति प्रथमपर्याय अस्ति सात्यकी अधुना सात्यकी जागरितः सः संस्थितः इत्युक्ते सः स्थितः तत्र जागरिकः यदा अन्यौ द्वौ निद्रां कृतवन्तौ अत्र पश्यन्तु सर्वेषु स्थलेषु द्विवचनानि दृश्यन्ते द्वौ <laughs> कृतवन्तौ तव। तदा वृक्षतः एकः पिशाचः अवतीर्णवान् अव अव उपसर्ग तृ इति धातु तृ अवतीर्णवान् मान् इति तवतु प्रत्यय कर्त्रार्थे कः अवतीर्णवान् पिशाचः हा। तत्र अस्माकम् शास्त्रे तत् भिन्नाः योनयः सन्ति तत पिशाचः अनन्तरं यक्षः किन्नरः अक्षरा एवं सर्वं तत पिशाचः इति एकः योनि पिशाचः अवतीर्णवान् तत्र पिशाचः इस् सपोस् टु बि वित् निगेटिव् स्पिरिट् इति सः अवतीर्णवान् सः सात्तिकीं मल्लयुद्धार्थम् आहूतवान् तत्र पिशाचः अस्ति मूलतः स्वभावतः एव सः क्रूरः अतः तत्र सात्यकीं तत् मल्लयुद्धं करिष्यामः इति करिष्यावः इति सः उक्तवान् आहूतवान् मल्ल मल्लयुद्धार्थं बहूनि कटुवचनानि उक्तवान् च तत्र कटुवचनैः सह सात्यकेः सम् सः वार्तालापं कृतवान् इत्युक्ते <coughs> मूलतः स्वभावतः क्रूरः भाषा अपि वाणी अपि वा अपि शुद्धता न दृश्यते कटुवचनानि एव सः उक्तवान् अधुना अत्र किं सात्यकी किं कृतवान् कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान् इत्युक्ते तत्र सात्यकी टिट् फोर् टेट् इति कृतवान् इत्युक्ते mm. सः कटुवचनं वचनं वदति सात्यकी अपि तथैव कटुवचनम् उक्त्वा एव उत्तरं ददाति इति प्रचलत् अस्ति कटुवचनानां कृते कटुवचनानि एव एतादृशानि उत्तराणि तदा अग... अग... अग... अग... तेन किम् अभवत् पिशाचः इतोऽपि क्रोधितः लत्तापहार अत्र शरीरे मृ अनन्तरं पादप्रहार एवं सर्वं सः आरब्धवान् पिशाचः सात्यकेः शरीरे मुष्टिप्रहारम् पादप्रहारम् एवं सर्वं वर्तते तत्सर्वं सात्यकी उपरि सः सात्यकेः उपरि सः कृतवान् पूर्णप्रहरं यावत् तयो मल्लयुद्धं प्राचलत् पश्यन्तु एक अत्र किं चिन्तितमस्ति पर्या पर्यायरूपेण एकं प्रहरं यावत् जागरितः अत्र किम् अभवत् एकं पर्यायं पूर्णतः तत्र एषा घटना मल्लयुद्धम् एव अभवत् अधुना पिशाचः बलेन अधिकम् सात्यकेः अपेक्षया पिशाचबलम् अधिकं तेन किं भवति सात्यकेः शरीरे बहवः क्षताः सञ्जाताः क्षताः इत्युक्ते मुण्ड् तत्र रक्तपातम् अपि तत्र एवं सर्वम् अभवत् सः नितरां श्रान्तः शताः सन्ति तत्र अतः सः नितरां श्रान्तः किन्तु तस्मिन् समये सहयोगिनयो सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान् परन्तु अन्येषां कृते निद्राभङ्गम् न भवेत् अतः सः किमपि न उक्तवान् तथैव एकप्रहरसमाप्ति अनन्तरं सः निद्रां कृतवान् इति स्थितिः सात्यकेः का अवस्था इति एतस्मिन् परिच्छेदे अस्ति अद्य द्वितीयः पर्याय प्रति तं प्रति गच्छामः वीणा भगिनी अग्रिमे पठति वा अस्तु भगिनी पठामि <coughs> द्वितीयः पर्यायः बलरामस्य आसीत् अपि कटुवचनैहि मल्लयुद्धे महावीरेण बलरामेण अपि साएव गतिहि प्राप्ता श्रान्तः सह अपि प्रह प्रहरान्ते निद्राम् कृतवान् विवरणं ददामि वा भगिनी एतस्य विवरणम् अनन्तरं द्वितीयं प्रच्छेदमपि पठतु परन्तु प्रथमं तत् एतस्य विवरणं अस्तु अस्तु भगिनि द्वितीयः पर्यायः बलरामस्य आसीत् बलरामः सात् हा सात्यकस्य पश्चात् तस्य पर्यायः आसीत् तमपि तदपि पिशाचः पूर्वम् एव कृतवान् बलरा बलरामायां मल्लयुद्धार्थम् आहूतवान् भगिनी आहूतवान् इति कथं भवति आहूतवान् आह्वान् आह्वान् टु काल् इति अस्तु भगिनि पूर्वम् एव कटुवचनैः निन्दितवान् अपि मल्लयुद्धे महावीरेण बलरामेण अपि हा सः एव गतिः प्राप्तः बलराम सात्यकी सात्यक्यस्य गतिः एव प्राप्तवान् इत्युक्ते तत्रापि क्षताः रक्तपात एवं सर्वातः अतः सः अपि प्रहरान्ते निद्रां कृतवान् श्रान्तः सः श्रान्तः अतीव आम् आम् तस्मात् कारणं प्रहरान्ते परन्तु सः अपि किमपि न उक्तवान् किमर्थं तत् सहयोगिनोः निद्रायाः भङ्गं न भवेत् न भवे अस्तु भगिनि हा पर्याये हा अस्तु भगिनि तृतीये पर्याये श्रीकृष्णः नि, निमित्तं आगतवान् hmm. तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् hmm. कृत्स्नः हसन् एव युद्धं कर्तुम् आरब्धवान् hmm. उक्तवान् च भवान् बहुविनोदप्रियः इव भासते मम निद्राम् hmm. आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन्नस् कुर्वन्नस्ति इति hmm. hmm. तदा पिशाचस्य बलं न्यूनं जातं तस्य hmm. शरीरं अपि सङ्कुचत् गतं सङ्कुचत् गतम् hmm. अन्ते सः झिल्लिका इव लघुशरीरः जातः तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य वदतु किम् अभवत् तृतीयपर्याये श्रीकृष्णः आगतवान् कृ कृष्णम् अपि सः पिशाचः मल्लयुद्धार्थम् आह्वानितवान् आहूतवान् एवम एवमपि वक्तुं शक्नोति अस्तु भगिनि आह्वानं दत्तवान् कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान् कृष्णः हसन् उक्तवान् च भवान् तु बहु विनोदप्रियः भासते मम निद्राम् आलस्यं च दूरीकर्तुं भवान् भवान् मित्रम् इव विनोदम् कृष्णः किञ्चित् विनोदं कर्तुं विनोदं विनोदं कर्तुम् आरब्धवान् सः उक्तवान् सः पिशाचं पिशाचिः बहु विनोदप्रियः इति तथा he he he says he is here to entertain him bhagini hm hm hm vinodam kurvannasti iti tadapi shachasya balam aha idam shrutva pishachasya balam nyunam jatam he is a little shocked and his uh, energy is lost hm hm tasya shariram api sankut sankuchatgatam Uh, hmm. तस्य शरीरं किञ्चित् स्माल् स्माल् अभवत् स्माल् इत्युक्ते सङ्कोचनम् अभवत् शरीरस्य स्माल् भवे इट् स्माल् आमां बृहत् शरीरस्य लघुशरीरं लघुशरीरः अभवत् अस्तु भगिनी तत्र शरीरः इति शब्दनपुसलिङ्गे अपि प्रवर्तते पुल्लिङ्गे अपि प्रवर्तते तत् शरीरमपि योग्यं शरीरः अपि योग्यम् अत्र शरीरमस्ति शरीरं सङ्कु सङ्कुचत् गतं सङ्कुच सङ्कुचत् अन्ते सः झिल्लिका इव लघुशरीरः झिल्लिका इत्युक्ते किं भगिनी झिल्लिका इत्युक्ते क्षुद्रः कीटः क्षुद्रः अति अतिक्षुद्र अतिसूक्ष्मकीट इति सूक्ष्म तत्र कीटः अत्र हिन्दीभाषायां तत् छिल्लर् इति वदामः खलु तत् इत्युक्ते तत्र वेरि स्माल् इन् इन्सेक्ट् कीटः कीटिका इत्युक्ते इन्सेक्ट् वा भगिनी आमां कीटः कीट इन्सेक्ट् परन्तु इन्सेक्ट् इन्सेक्ट अपि कीदृशः यस्य शुद्धत्वं वर्तते यस्मिन् इत्युक्ते नगण्यः तत्र शुद्धम् अतिक्षुब्द्र कीटः अस्तु भगिनि अस्तु भगिनि कदा कदा वयं जन्तु इति वदामः खलु जन्तु तादृश जन्तु इत्युक्ते अनिमल् भगिनि न न जन्तुः इत्युक्ते वस्तुतः जन्तुः इत्युक्ते बेक्टेरिया वैरस् इति तत्र आमाम् आं तज्जन्तु जन्तवः तत्र झिल्लिका इत्युक्ते कीटः एव इन्सेक्ट् एव यथा भगिनी उक्तवती इन्सेक्ट् अस्तु भगिनि अस्तु हा महोदय वदतु किम् सङ्कुचत् इत्युक्ते इत्युक्ते कान्ट्राक्ट् कान्ट्रेक्ट् टु एक्स्पाण्ड् टु श्रिङ्ग् टु श्रिङ्ग् इति तत्र पश्यन्तु अत्र अत्र स्थितिका सात्यकेः कृते वा बलरामस्य कृते पिशाचः रौद्रं रूपं धायितवान् परन्तु अत्र स्थितिका कृष्णस्य मनसि भयः अस्ति वा भयमस्ति वा तत्र किञ्चिदपि ना नास्ति किञ्चिदपि नास्ति, नास्ति? इत्युक्ते तत्र यथा कथायाः सन्दर्भेण भयं नश्यति धैर्यात् सः धैर्यवान् अत्र तु इतोपि सह विनोदस्य आश्रयं कृत्वा उक्तवान् भवान बहु विनोदप्रिय मम आलस्य दूरीकरणं भवेत् मम निद्राया अपि दूरीकरणं भवेत अतः भवान् अत्र उपस्थितः तेन किमभवत् पिशा पिशाचस्य बलं न्यूनं जातं बहुवारम् अस्माकं चिन्तने एव बहु किमस्ति ओ एवं भविष्यति चेत् किं करोमि तादृशं भविष्यति चेत् किं करोमि परन्तु यथा अगुँ, अगुँ, अस्माकं चिन्तने अस्ति वास्तविकरूपेण तादृशी स्थितिः नास्ति एव तत्लभव अस्मकृषा ओ बहु कठिन कठिन परे तथा पिशाच से पिशाच से बल न्यूनमेवन जात शरीरमी तत् बृहत्शं अधुना सकुत सकुचत गुक्ट न्यूनमेंव लघुशरी जिल्लिकाव तदा श्रीकृष्णः किं कृतवान् अन्तिमा पङ्क्ति भगिनी स्वस्य स्वस्य उत्तरीयस्य अञ्जले बद्धवान् इत्युक्ते रैट् हेण्ड् वा भगिनी न उत्तरीयस्य इत्युक्ते तेट् पर्टिक्युलर् वट् डु बी काल् देट् एवं किम् अस्ति वस्त्रं तत् नाम ओके करेक्ट् ओके भगिनि तत् पूजायाः समये वा धर्मकार्यार्थं यदा वा मन्दिरं यदा वयं गच्छामः तत वयं तत उपरि या इति वक्तुं शक्नोति अञ्चले बद्धवान् इत्युक्ते इत्युक्ते अधुना उत् श्रीकृष्णः श्रीकृष्णः सहजतया स्य धारणं कृतवान् सहजतया यथा उत्तरीयं धारयति तथैव पिशाचस्य धारणा इति न गण्या अवस्था तस्य हा इति भावः अग्रिमे अग्रिमे जयन्ति धन्यवादः पठति वा धन्यवाद धन्यवादः अग्रिमे जयन्ति भगिनी पठति वा प्रातः प्रातः प्रातः यदा ते तदा सात्यिकी बलरामः च पिशाचेन पिशाचेन सह रात्रौ रज्जातस्य मल्लयुद्ध सञ्जातस्य रात्रौ सञ्जातस्य सारि भगिनी सारीताम् सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ तेन सञ्जातान् शतान् अपि दर्शितवन्तौ श्रीकृष्णः हसन् पिशाचन् पिशाचम् उत्तरीयस्य अञ्जलतः निष्कास्य करतले स्थापितवान् उक्तवान् च एषः अस्ति क्रोधपिशाच क्रोधपिशा पिशाचः एषः अस्ति क्रोधपिशाचः एतस्य प्रकृतिः एषा अस्ति Uh, प्रत्युत्तरधानेन एषः वर्धते uh, उग्रतां च प्राप्नोति किन्तु hmm. यदि उपेक्षां कुर्मह तर्हि सः स्वयमेव दुर्लभः भवति hmm. uh, लघुरूपं प्राप्नोति इति hmm. uh, अनन्तर दिने प्रातःकाले uh, um, सर्वे um, Um, uh, पिशासच्चविषये uh, uh, सम्भा सल्लाभः ऐ I मीन् mean, सम्भाषणं कृतवन्तः वर्णनम् अपि कृत uh, दत्तवन्तः um, mm. uh, uh, आरम्भे uh, बलरामः सात्यकी सात्यकी च पिशासच्च वर्णनं कृतवन्तौ uh, तदनन्तरम् mm. ऐ uh, मीन् I mean, um, तेन किम् uh, uh, अभवत् इति uh, uh, उक्तवन्तः उक्तवन्तौ द्वयौ द्वयौ अपि तेन सञ्जातं शतान् अपि दर्शि दर्शितवन्तः किम् अभवत् इति दर्शितवन्तः अपि श्रीकृष्णः असन् उक्तवान् पिशासन् उत्तरीयस्य अञ्जलतः अहम् भक्तवान् इति निष्कास्य करतले स्थापितवान् उक्तवान् च श्रीकृष्णः किम् अभवत् तस्य कृते इति दर्शितवान् अपि उक्तवान् अपि एषः अस्ति क्रोधपिशाचः एषः एव क्रोधपिशाचः इति कथा कथायाः विषयः एषः अस्ति क्रोधपिशाचः एतस्य प्रकृतिः एषा अस्ति एतस्य प्रकृति स्वभावं स्वभावतः एषः अस्ति स्वरूपम् प्रति उत्तरधानेन एषः वर्धते प्रति उत्तरधानेन एषः वर्धते उग्रतां च प्राप्नोति एतस्य स्वभाव प्रकृतिः इत्युक्ते अत्र स्वभावतया वक्तुं शक्यते खलु प्रकृति सत्यं स्वभावतया एषः अस्ति प्रति प्रति प्रति उद्धरधानेन एषः वर्धते एषः स्थितिः वर्धते hmm. उग्रतामपि प्राप्नोति किन्तु यदि अपे उपेक्षं कुर्मः उपेक्षम् उपेक्षा उपेक्षा उपेक्षा कुर्मः चेत् सः स्वयमेव दुर्लभः भवति इति hmm. लघुतरं लघुरूपं प्राप्नोति इति कृष्णः उक्तवान् mm. यदपि यद्यपि वयं चिन्तनं मनसि अस्ति बहुधा बहुरूपं गुरुत्वम् इति चिन्तयामः चेत् mm. गुरुत्वमेव भवति लघुतरम् इति चिन्तया चिन्तयामः चेत् लघुतरं भवति इति कृष्णस्य उत्तरं भवति अन्तिमा mm. mm. पङ्क्तिः पठति स्वरूपं तदा ज्ञातवन्तौ सात्यकी बलरामौ इदानीं द्वयौ अपि बलरामः सात्यकी द्वयौ अपि क्रोधपिशास च स्वरूपं किम् इति ज्ञातवन्तः ज्ञातवन्तौ ज्ञातवन्तौ अधुना यत् पश्यन्तु तत् यत् वयं ज्ञातवन्तः गतपक्षे mm. mm. mm. हा भयं नश्यति धैर्यात् हा धैर्यकारणात् एव भयस्य नाशनं भवति वस्तुतः भयविषयकः अस्माकं मनसि भीतिः हा अत्र एकवारं व्याकरणस्य अपि सन्दर्भं वदामि तत् व्याकरण पश्यन्तु संस्कृतभाषा संस्कृतभाषायाः mm. का विशेषता शब्दानां ग्रहणं वा वाक्यानां ग्रहणं तत्र नान् लिविङ्ग् एण्टिटि इति न शब्दाः अपि सजीवाः हा इत्युक्ते सजीवा पश्यन्तु तत्र व्याकरणे अपि एकं सूत्रमस्ति पञ्चमी अपादाने तद् भयकारण यत्र अस्ति तत् अहं व्याघ्रात् बिभामि तत् पञ्चमी आगच्छति एवं खलु जयन्ति भगिनि तत्र चोरा मम मया चोरात् भयम् अस्ति इत्युक्ते तत्र वियोगः दृश्यते हा मानसिकदृत्या अस्माकं मनसि एव होहो हो, हो, हो तत्र परीक्षामस्ति वा तत्र व्याघ्रः अस्ति तत् मनसि एव तत्र किं भवति विभागः अगच्छति, मनसि एव इत्युक्ते वयम चिन्तयामः ओ तत्र अहं दूरमेव गच्छामि न बामा न न एवं वयं चिन्तयामि तत् अस्माकं चिन्तने एव किम् अस्ति ओ एतद् भवितुमर्हति ओ तत्र मया पठितमासीत् तत् एवं भवितुमर्हति ओ एवं सर्वम् अस्माकं चिन्तने तेन किं भवति वास्तवरूपेण यत् किम् अस्ति तस्य बृहत् आकारस्य विषये वयं चिन्तयामः तत् अस्ति पिशाचः वास्तविकरूपेण समस्या का एतस्य चिन्तनं न भवति हा तत् भगवद्गीतायाम् अस्ति खलु तत तत् अहं मन्ये मनम् एव जनानां बन्धुमोचनात् कारण तत्र अस्माकं चिन्तने एव भयस्य बृहत्करणं भवति तत्र परन्तु श्रीकृष्णने किं कृतम् सः एवम् अस्तु भवान् तु विनोदप्रियः दृश्यते एव तदा एव तस्मिन् एव क्षणे पिशाचस्य बलं न्यूनं जातं शरीरमपि सङ्कुचत् सङ्कुचितम् अभवत् इति जिल्लिका एव इति वर्णनं दृश्यते अत्र हा अनन्तरम् उत्तरीयस्य अञ्चलता इत्युक्ते एतत् सर्वं किं दर्शयति तत् तत न्यूनम एव सहजतया तस्य धारणं भवति अस्तु अस्तु, अस्तु इति एवम् अस्ति सत्यं तत् भयस् भयविषयकः एव परन्तु तत्र अधुना तस्य विषयक भीतिः अनन्तरं क्रोधः अनन्तरं चित्ता अतोपि तत्र प्रत्युत्तराणाम् अत्रापि पश्यतु प्रथमतः किम् अभवत् बलराम किं ते सात्य सात्यके सात्यके सात्यके सात्यकी किं तत्र कटुवचनानां कटुवचनैः एव उत्तराणि दत्तवान् तत् न अभवत् परन्तु अत्र श्रीकृष्णः विनोदस्य आश्रयं कृत्वा सः पिशाचः सम्मुखीकरणं सः कृतवान् पिशाचस्य विषयस्य भयं तस्य मनसि नास्ति एव अस्तु तत्र अतः तत्र एतस्य प्रकृतिः प्रत्युत्तरदानेन एषः वर्धते उव्रतां च परन्तु यदि उपेक्षां कुर्मः अवधानम् एव न दत्तवान् सः अतः सः स्वयमेव कालान्तरेण दुर्बलः एव भवति लघुरूपं प्राप्नोति इति अस्ति क्रोधपिशाचस्य स्वरूपं क्रोधपिशाच तथैव भयस्य स्वरूपं वा चिन्तायाः अपि स्वरूपम् एवं वक्तुं इति विषयः अस्तु योग्यमस्ति वा किमपि वक्तव्यमस्ति वा तस्य उपरि यत्किमपि कार्यं वयं बहु बहु बृहत् इति सूचयामः चेत् बृहत् एव भवति लघुतरम् इति सूचयामि चेत् लघु एव भवति वयं वयम् इति सूचयामः चेत् चिन्तयामः चेत् भयम् एव भवति कार्यं कार्यं सम्यक् न भवति सत्यमेव कृष्णः श्रीकृष्णः भगवद्गीतायाम् उक्तवन्तः खलु तावदेव सत्यं सत्यं बहु सम्यक् वास्तविकस्वरूपस्य अज्ञानं वास्तविकस्वरूपस्य यथार्थस्वरूपविषयकः अज्ञानं तस्मात् कारणात् भयं तस्मात् कारणात् क्रोधः एवं सर्वम् इति अस्तु धन्यवादः अधुना अभ्यासः कुर्मः हा अस्तु धन्यवादः भगिनि भारतमहोदय भवान् आरम्भं करोति वा अभ्यासः हा। आम् भगिनि एतेषां प्रश्नानाम् उत्तरं लिखत प्रथमपर्याये कः रक्षि रक्षणं कृतवान् प्रथमपर्याये सात्यकीः रक्षणं कृतवान् योग्यम् उत्तमं कह मल्लयुद्धार्थम् आहूतवान् पिश, पिशाचः मल्लयुद्धार्थम् आहूतवान् सत्यम् पिशाचः किम् उक्तवान् पिशाचः कटु कटुवाचनि कटुवचनानि बहूनि कटुवच मल्लयुद्ध युद्धम् आहूतवान् यु, मल्लयुद्धायुद्धार्थ आहु, आहूतवान् सत्यं योग्यलरामः प्रहारन्ते किं कृतवान् बलरामः प्रहारन्ते निद्रां कृतवान् प्रहाराणि निद्रां कृतवान् ओके कस्मिन् पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् तृतीये तृतीये तृतीय पर्याये पर्याये अत्र सप्तम्यन्तं पदं तृतीये पर्याये श्रीकृष्ण श्रीकृष्ण सुरक्षा निमित्तम् आगतवान् कृष्णः पिशाचं कुत्र बद्धवान् मीनिङ्ग् आफ् बद्धवान् बद्धवान् इत्युक्ते टैड् इति बद्ध इत्युक्ते टु टाय बन्धन पश्यन्तु अत्र श्रीकृष्णः तं स्वस्य मलयुद्धस्य वर्णं वर्णं वर्णनं कौ कृतवन्तौ मल्लयुद्धस्य क्रोध अधुना मल्लयुद्धं केन कृतं प्रथमतः तु सात्यकीः मल्लयुद्धं कृतवान् अनन्तरं बलरामः अपि मल्लयुद्धं कृतवान् हा अधुना पश्यन्तु तत्र द्विवचनान्तं मलयुधस्य वर्णनं कौ कृतवन्तौ oh, okay, okay. okay. सात्यकी बलरामः च मलयुधस्य वर्णनं कृतवन्तौ उत्तमं सात्यकी बलरामः च नो तत्र समास्कृत्य सात्यकी बलरामौ वर्णनं कृतवन्तौ एवं परन्तु यथा भवान् उक्तवान् तदपि योग्यमस्ति सम्यक् उत्तममस्ति महोदय धन्यवादः धन्यवाद अग्रिमे तत् राधाभगिनी पठति वा एतेषाम् एते उत्तराणां प्रश्ननिर्माणं कुरुत त्रयः निबिडं वनं प्रविष्टवन्तः hmm. त्रयः कुत्र प्रविष्टवन्तः अत्र hmm. <tout> किं भवति वनं प्रविष्टवन्तः तत् कुत्र इति बहुधा कुत्र इति सप्तम्यन्तम् उत्तरस्य कारणात् अस्ति अत्र वयं प्रष्टुं शक्नुमः कति जनाः निबिडं वनं प्रविष्टवन्तः कति जनाः अथवा के के निबिडं वनम् के निबिडं वनं प्रविष्टवन्तः त्रयः निबिडं वनं प्रविष्टवन्तः तदपि योग्यम् अस्तु सात्यकी प्रथमः प्रहारी सन् स्थितः Uh, सात्यकिः कः uh, हा। प्रहरी संस्थितः अधुना किं भवति तत् प्रथमः प्रहरी तत् कालविषयं सात्यकिः कदा कदा कदा कदा स्थितः इति भवति नो चेत् प्रथमः प्रहरी संस्थितः इति अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कः मल्लयुद्धार्थम् आहूतवान् किमर्थम् आहूतवान् बहु सम्यक् किमर्थम् आहूतवान् मल्लयुद्धार्थं योग्यं कृष्णः हसन् युद्धम् आरब्धवान् कृष्णः कथं युद्धम् आरब्धवान् नो चेत् कृष्णः हा कृष्णः किं कुर्वन् युद्धम् आरब्धवान् किं कुर्वन् हा अत्र हसन् इति शत्रुप्रत्ययन्तरूपं तदा प्रश्ने अपि शत्रुप्रत्ययन्तं किं कुर्वन् युद्धम् आरब्धवान् नो चेत् कृष्णः हसन् किम् आरब्धवान् युद्धम् आरब्धवान् इति अपि कृष्णः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान् कृष्णः पिशा पिशा पिशाचं कुत्र बद्धवान् कुत्र बद्धवान् अत्र कुत्र इति सप्तम्यन्तं कृष्णः <laughs> पिशाचम् उत्तरीयस्य अञ्चले बद्धवान् अत्र इतोपि कः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान् कृष्णः hmm. पिशाचम् उत्तरीयस्य अञ्चले बद्धवान् अधुना hmm. पिशाचम् इति उत्तरम् अपेक्षितं तदा किं भवति hmm. कृष्णः कम् उत्तरीयस्य अञ्चले बद्धवान् कम् hmm. कम। पिशाच hmm. पुल्लिङ्ग्यस्ति अथ hmm. इतोपि सम्भवति कृष्णः पिशाचम् कस्य अञ्चले बद्धवान् एवं आ, सर्वं सम्भवति पिशा, कृष्णः पिशाचम् अञ्चलतः निष्कासितवान् कृष्णः कम् अञ्चलतः निष्कासित निष्कासितवान् अथवा अथवा कृष्णः पिशाचं कुतः निकासितवान् तत् कुतः भवति वा कस्मात् पञ्चं मन्त्रं इतः इति पिशाचं कस्मात् निष्कासितवान् वा यथा भवती उक्तवती कुतः निष्कासितवान् अञ्चलतः निष्कासितवान् इत्युक्ते तत्र सदा सर्वदा तस्य धारणं मास्तु hmm. निष्कासनमेव भवेत् अस्तु hmm. hmm. hmm. यतो हि सः अधुना न्यूनं शरीरमस्ति परन्तु तस्य अपि किमर्थं धारणा मनसि hmm. न एव अतः निष्कासनम् yeah. इति भावः अस्तु अस्तु उत्तममस्ति धन्यवादः भगिनी धन्यवाद अधुना अगस्ट् महोदय भवान् पठति अग्रिमम् नमो नमः असमानार्थं विचिनु, विचिनुतं विचिनु इत्युक्ते किं करणीयमत्र तत्र प्रथमे भागे तत्र शब्दः अस्ति तत्र शब्दानां पर्यायवाचिशब्दाः तत्र सन्ति तत्र असमानार्थम् असमा समानार्थकं यस्य अर्थदृष्ट्या समानता नास्ति तस्य चयनं करणीयम् इति हा अधुना पठतु अहम् अहं साहाय्यं करोमि पठतु प्रथमः प्रश्न श्रीकृष्णः श्रीकृष्णः अच्युतःकेशः वा, हरिषिकेशः अधुना श्रीकृष्णः इत्युक्ते श्रीकृष्णस्य अन्यानि नामानि कानि तस्य एकः अच्युतः एकः शब्दः तत्र अच्युतः अच्युतः नाम अच्युतः श्रीकृष्णः अच्युतः अच्युतः इत्युक्ते यः कर्तव्यात् कदापि न च्युतः सदा सर्वदा सः कर्तव्यपालनं कृतवान् आसीत् तस्य जीवने धैर्येण सः जीवनं यापितवान् अतः अच्युतः अन्तिम ऋषिकेशः इत्युक्ते किम् अगस्थमहोदय आम् वण्डर्फुल् बहु सम्यक् इन्द्रियाणां ऋषिकेशः तत् इत्युक्ते सः कः श्रीकृष्णः एव इत्युक्ते श्रीकृष्णस्य कृते अच्युतः इति एकः शब्दः द्वितीयः अस्ति ऋषिकेशः अधुना गुडाकेशः इत्युक्ते किं वदति वा आम् अर्जुनः एव बहु सम्यक् गुडाकेश तत्र अर्थद्वयं संभवति अर्थप्रथमः अस्ति तद् गुडा गुडाका इत्युक्ते निद्रा यः निद्रायाः स्वामी निद्राग्रहणं कदा भवेत तस्य तस्य अधीनः एषः विषयः गुड़ाकेश अर्थ द्वितीय अभी अर्थ अहम कुत् पठितवती आसम तुड़ाकेश लस हेर गुड़े तत् गोल कलर्ड हेर ब्यूटिफु हेर गुड़ाकेश इक अर्थ अधुना अच्युत नाम ऋषिकेश अ ेय इत्युक्ते किं वदति वा अवस्तु महोदयेय इति तत् वृष्णि वृष्णि इति वंशः अस्ति वंश इत्युक्ते तत्र किं वदामि कुरु कुरुवंश तत्र कुरुवंशः वा यादववंशः तत्र वृष्णि इति वंश तत्र वृष्णि इति कुलात् वृष्णिकुलोत्पन्नः इति वार्ष्णेयः तत् वृष्णि इति कुलोत्पन्न वृष्णि इति कुल कुल कुल कुले यस्य जननं तत् श्रीकृष्ण एव सः एव वार्ष्णेयः अधुना पश्यतु अच्युतः इति श्रीकृष्णस्य अन्यदेकं नाम वार्ष्णेय अपि श्रीकृष्णस्य अन्यत एकं नाम नाम ऋषिकेश श्री अपि श्रीकृष्ण स एव अन्यत् एकं नाम अधुना किम् अवशिष्यते अवशिष्यम् अवशिष्यते किं गुडाकेशः गुडाकेशः इति एकम् अर्जुनस्य नामानिधानन् अतः असमानार्थकं शब्दं विच्छिनुत इत्युक्ते तत्र असमानार्थक शब्दः कह गुडाकेशः इति असमानार्थकं शब्दस्य चयनम् इति गुडाकेशः इति उत्तरम् अधुना द्वितीयं प्रति गच्छामः पठतु ओगस्टमहोदय मार्गः अयनं प्रगतिः तद्भिन्नमस्ति योग्यं योग्यम् उत्तमम् अयनम् अयनम् अपि मार्गः इति अर्थ रामायणम् रामायणं रामस्य अयनम्, येन मार्गेण रामेण कालक्रमणा कृता तस्य बोधनं रामायणं वर्त्म अपि मार्ग इत्यर्थ श्रुतिः अपि मार्ग इति अर्थ, प्रगतिः प्रगतिः इति मार्ग अर्थे नास्ति अतः प्रगतिः इति असमानार्थकशब्दः उत्तमम् अग्रिमे युद्धम् आनकः सङ्ग्रामः युद्ध अत्र युद्ध इत्युक्ते युद्धं युधि इत्युक्ते युद्धे तत् युद्ध संग्राम अुद्धमे आहव आहवे युद्धे तत्वीता शब्द आगे आनक दृष्टि पांडवानिकं पांडवानीक आनक आनक, आनक सैन्य mm -hmm. सैन्य विषय प्रतिपदार्थक अत युद्ध आनक, आनक न तदिन शब्दस्य चयनं किमस्ति अत्र आनकः इति भिन्न अर्थम् असमानार्थकशब्दः अस्ति आनकः स्पष्टमस्ति वा अग्रिमे शरीरम् वास्तविक हा तत्तु सत्यम शरीरम् इत्युक्ते तनुः अपि कलेवरमपि देहः अपि शरीरस्य कृते एव एतेषां शब्दानां प्रयोजनं परन्तु ततम् इत्युक्ते इन्स्ट्रुमेण्ट् इति न ततम् इत्युक्ते येन सर्वं इदं ततं तत् मूलतः तत किम् अस्ति तत् किञ्चित् व्याकरणस्य विषयः अतः वदामि तत्र तनु इति एकः धातु तनु विस्तारे तनु विस्तारे तन् इति धातु मूलतः तन् इति धातु तत् विस्तारे इति अर्थः एक्स्पान्शन् येन सर्वम् इदं ततम् इति भगवद्गीतायाम् इत्युक्ते तन् धातोः तप्रत्ययान्तरूपम् णु स्थल विस्ता दृश्य तत्त विषयक शब्द परंतु शरीरम अर्थना शरीर अर्थदृष्ट शब परु इति विशाल विशालूपम परहमण विशाल तत्र येन सर्वम् इदं ततं तत् भगिनी तस्मात् प्राक् या पङ्क्ति अस्ति सा स्मरति वा भवती अष्टमाध्याये सेवेन्त् श्लोक श्लोक तत् अस्ति खलु अहं प्रथमापङ्क्ति न स्मरामि तत्र तेन सर्वमिदं ततम् एवं स्मरति मनसि आगच्छति ततम् इति तन्न धातोः तप्रत्ययान्तरूपं नपुंसकलिङ्गिरूपम् अष्टमाध्यायिनी अष्टमाध्याय इति अवगच्छं तत् तथैव परन्तु तस्मात् प्राक् चरणः एकः तत् स्मरामि अत्र अस्तु अग्रिमे वर्गे दृष्ट्वा वयं पश्यामः परन्तु ततमिति तत्र द्वितीये वा द्वितीये वा तृतीये अध्याये अस्ति इति मम चिन्तनं तत्तु बहुवारं तत् आगच्छति तत् तत् यस्यान्तस्थानि ये भूतानि येन सर्वम् इदं सतम् इति अष्टाध्यायी अस्ति खलु आमामा अस्तु अस् अग्रेसरे हा अवस्तु महोदय पठति वा मित्रं सखा शुचिः सुहृत् शुचिः अधुना किं भवति पश्यन्तु अधुना मित्रं सखा शुचिः सुहृद् तत्र सर्वेषां सखा सुहृद् शोभनं हृदयं यस्य सः सः सुहृद् सहाय्यः सहाय्यकारी शुचिः इत्युक्ते तत्र चौच वर्तते तत्र शुचिता इति तत् भिन्नः शब्दः योग्यम् अग्रिमे सैन्यम् इति organ. इति भिन्नः शब्दः योग्यं बहु सम्यक् महोदय सैन्यम् इत्युक्ते सेना इत्युक्ते अनिकम् इत्युक्ते च मुहुः ऋषिकम् इति भिन्नः उत्तमम् बहु सम्यक् महोदय श्लोकः अस्ति द्वितीये अध्याये अविनाशि तद्विद्धि येन सर्वमिदम् ततं विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति इत्युक्ते सर्वम् इदम् जगत् ह तत व्यास्तृत कीदश तीद वर्णन किसी तर वर्णनम अनानाशी तद्दि विधि जानी हे अर्जुन हे अर्जुन जानी ओं जानी एक ततम अविनाशी अस् त अविनाशी अस्ति अव्ययः अस्ति यस्य व्ययं नास्ति अव्ययः तत्र विनाशं न कश्चित् कर्तुमर्हति कोऽपि तस्य विनाशं कर्तुं सक्षमः नास्ति इति कृष्णः वदति द्वितीय अध्याये अस्ति अष्टम अध्याये अपि यदि बेनी उतवती खलु ट्वेंटी सेकेंड श्लोक शत भक्त अनयानी भूता तक अहम पठितचि बहु भगवत सम्यकारेण भगवदीतांशरूपेण एकम एव वाक्यम् इति सह सः तपस्वी अस्ति पुरुषः तस्य एकं विवरणमस्ति तत्र तत्र अहं पठितवती आसम् एकस्मिन् वाक्ये एव साररूपेण किं दत्तमस्ति तत्र अष्टादश अध्यायानां सङ्ग्रहणं तत्र इत्युक्ते भागत्रयं हा 1 टु सिक्स्त् अनन्तरं ट्वेल्व् आन्वर्स् अनन्तरम् एय्टीन् ओके सो अधुना किमस्ति प्रथमे विभागे तत् विषयक तत् ततम् इत्युक्ते तत् इत्युक्ते किं ब्रह्मणः विचारः तत् हा मध्यभागे त्वम् इत्युक्ते त्वं त्वया किं किं करणीयमस्ति एतत् सर्वं तत्र सङ्ग वा अस्माकं विकाराणां भी, वा इन्द्रियाणां निग्रहणं वा तत्र निष्कामतया आचरणं वा भक्तियोगः द्वादशे अध्याये एतत् सर्वम् आचरणम् अस्माभिः करणीयं त्वं तत् प्रथमः सर्वस्य ब्रह्मणः विषयकविवरणं द्वितीयभाग तत् त्वम् अन्तिमः असी असी असि इत्युक्ते अधातोः Uh, मध्यमपुरुष एकवचनान्तरूपं तत् त्वम् असि इत्युक्ते यत् ब्रह्माण्डी अस्ति तत् एव पिण्डी अस्ति वाटेवर् इस् व्याप्तः ततम् एव्रीवेर् विस्तृतः तत् एव अस्माकं शरीरे तत् परमात्मनः एकः अंशः अस्माकम् आत्मा इति तत् त्वम असि जस्ट वन सेण्टेन्स् इट् कन्क्लूड्स् एव्रिबेड् सो एतस्य अवगमनं यदा सम्यक्रीत्या वयं कुर्मः तदनुसारेण आचरणं कुर्मः तत् सर्वं सुलभमेव एवं खलु योग्यं वा अग्रे आसीत् तदेव सो सौम्य अग्रे आसीत् तत् वाक्यमहावाक्यम् इति आम् आम् अस्तु हा प्रश्नः एतावत्पर्यन्तं रमाभगिनी वदति वा रमा भगिनी न उक्तवती रमा भगिनी वदति वा पठति पुरतः शिह्नु शिह्नं चिन्न, वा चिह्नं चिह्नं लिखत चिह्नं चिह्नं शिक्षिनं चिह्नं चिह्नं लिखितम् एकता एक श्रीकृष्णः अर्जुनः सात्यकी च वनविहारार्थं गतवन्तः श्रीकृष्णः अर्जुनः सात्यकी सात्यकी च अर्जुन वनं रात्रि इत्युक्ते तत्र योग्यमस्ति वा अयोग्यम् अयोग्यम् इति अर्जुनः अर्जुनः न अस्ति तत्र बलराम बालरामः सात्विकी और् बलराम रात्रौ रक्षणार्थं त्रयः उपविष्टवन्तः न अयोग्यम् एव योग्यं किं योग्यं किं योग्यं किं भवितुमर्हति एकम् एकं पर्याय निमित्तं कृतवती हा परन्तु तत्र उपविष्टवन्तः तत्र किं परिवर्तनं भवितुमर्हति निद्रां कृतवन्तः द्वौ निद्रां कृतवन्तः एकं हा हा परन्तु तत्र एकः एकः उपविष्टवन्तः त्रयः तत्र किं परिवर्तनं भवितुमर्हति एकः वन्तः एक स्थाने की आगच्छति वन्तः स्थाने उपव... तव तु प्रत्यान्तरूपम् हा उपविष्टवान् इति आगच्छति खलु उपविष्टवान् हा तत्र गतवान् गतवन्तौ गतवन्तः इति अस्ति उपविष्टवान आसित, उपय कृष्ण से आस्यमस्ट प्रथम पर्याय सात आस्यके आसी सात्यके आसित, अधुना प्रथम स्था पिवर्तन भव कथम प्रथमः इति स्थाने कः शब्दः भवितुमर्हति प्रथमः इति स्थाने कह शब्दः भवितुमर्हति इत्युक्ते पर्यायः अन्तिम अन्तिमपर्यायः अन्तिमपर्यायः वा तृतीयः पर्यायः इति खलु रमा भगिनी तत्र तृतीयः पर्यायः इति अस्ति खलु तृतीयः पर्यायः कृष्णस्य वा अन्तिमः पर्यायः कृष्णस्य इति आरम्भे आरम्भे आरम्भपर्यायः इति हा आरम्भ अन्तिमः पर्यायः कृष्णस्य आसीत् अन्तिमः पर्यायः अन्तिमः पर्यायः कृष्णस्य हा अस्तु पिशाचः पिशाच पिशाचः मल्लयुद्धा आहूतवा अस्त बैनी शुद्धम वाक्यमस्त मलयुदा अशाच स्था पिशाचा वाम चेत वाक्य कि पिवर्तन होती तत्व पिशाचा मल्लयुद्धा आहूतवता है आहुतवचः सत्यं योग्यम् उत्तमं अग्रिमे कृष्णः कृष्णः पिशाचं वृक्षे बन् बद्धवान् न कृष्णः पिशाचं वस्त्रे वस्त्रे बद्धवान् उत्तरीयस्य अञ्जले बद्धवान् क्रोधपिशाचस्य प्रकृतिः एषा उपेक्षपेक्षया हीनः भवति अस्तु भगिनी तत् योग्यमेव खलु क्रोधपिशाचस्य प्रकृतिः उपेक्षया एव हीणा हीणा भवति तत् यदा वयम् उपेक्षां कुर्मः तदा एव तस्य न्यूनीकरणं भवति इति अस्तु अधुना धन्यवादः धन्यवादः अधुना गीताभगिनी तत्र अस्ति खलु गीताभगिनी आं भगिनि हा भवत्याः अवसरः अस्ति अदु, अधुना शेषः अस्ति अस्तु अधुना वयं किं कुर्मः तत्र समयः कथायाः वाचनं सम्पूर्णतया न भवितुमर्हति अग्रिमः पाठस्य उपस्थापनं करणीयं वा कथा यावत्पर्यन्तं शक्यते तावत्पर्यन्तं कथाम् एव पठिष्यामः भवन्तः सर्वे वदन्तु तथैव वयं कुर्मः मौनं सम्मति अपि दर्शयति तत् नकार अपि दर्शयति वदतु किम <laughs> <ताम्णी। laughs> कथायाः अग्रिमे विषयस्य उपस्थापना पठितवन्तः अधुना गीताभगिनी न पठितवती गीताभगिन्या भगिन्या अवश्यं परन्तु किं करणीयं तत् कथा अस्तु अस्तु अस्तु कथायाः आरम्भं करोमि अस्तु कुर्मः कथापि उत्तमा कथा एव अस्ति एषा अस्तु गीता भगिनी आरम्भं करोति वा भा? आं भगिनि कृषिकः कोकिलस, कोकिलस् कोकिलश्च कश्चन लघुग्रामः तत्र कश्चन कृषिकः निवसति निवसति स्म सूर्योदयं सूर्यो सूर्योदयतः सूर्यास्तत् सः क्षेत्रे विविधानि कार्याणि करोति स्म ततः सायं कुटीरं प्राप्य किञ्चित् विश्रान्तिं स्वीकरोति स्म hmm. अग्रिमं परिच्छेदमपि पठतु भगिनि अग्रिमपि तस्य कुटीरस्य समीपे एव कश्चन महान् आम्रवृक्षः आसीत् तत्र mm. बहुभ्यः mm. प्रदेश प्रदे प्रदेशेभ्यः प्र, mm. आगताः पक्षि पक्षिणः वसन्ति स्म तत्र mm. तेषां सङ्गीतगोष्ठी प्रचलति स्म ते hmm. सर्वे स्वस्य स्वस्य गानस्य huh. स्वस्य Rama... गानसामर्थ्यं सामर्थ्यं प्रदर्शयन्ति स्म तत्र hmm. hmm. अधुना प्रथमे परिच्छेदे किं दत्तमस्ति तत् विवरणं करोति वा स्वशब्दैः एककृषिकः <सधी> सूर्य सूर्योदयतः सूर्यास्त यावत् क्षेत्रे कार्याणि करोति सायं सम्यक् सायं कठोरे विश्रान्ति स्वीकरोति सम्यक् तीरं समीपे एकः एकनिमिषं भगिनि एकनिमिष नाट् एबुल् सी एक निमिष कुटीर समीपे महान् एक वृक्ष आसीत् आम्रवृक्ष आम्रवृक्षमासीत् मेङ्गोट्री इति मेङ्गोट्री तत्र प्रदेशस्य पक्षीणां वसति वसति तत्र आ, बो, आ, पक्षी वसती, वसती, हुँ. आ, हुँ. तत्र, तत्र पक्षीणां सङ्गीतगोष्ठी प्रचलति सर, सर्वे स्वयं स्वयं गान गायितुं प्रदर्शयन्ति स्वस्य गानं गीतगायनं तत्र प्रचलति इति सर्वेषां पक्षाणां तत्र स्वस्य स्वस्य गीतगायनं प्रचलति इति अस्तु एतावत्पर्यन्तं स्पष्टमस्ति आप। अधुना में भारत भारतमहोदय भवान् पठति वा भगिनी पठत एकदा कृषिकः कुटीरे शयितः आसीत् तदा पक्षिणां सङ्गीतगोष्ठी आरब्दा एके एकैकः अपि पक्षीकुजनेन स्वगानप्रतिभां प्रादर्शयत् तेषु कोकिलः कश्चित् मधुरतया कुजति स्म तत श्रुतवान् कृषकः तस्य ध्वनिना आकृष्टः सन् सन् अचिन्तयत् hmm. यदि एतादशादशः दस, कोकिलः मम सकाशे स्यात् तर्हि प्रतिदिनं तस्य कष्टामृतध्वनिं श्रोतुं शक्नुयाम् इति अधुना वदतु किम् अभवत् अत्र एकदा कृषि कृषिकः कुटीरे शैतः आगमन् शैतः मीनिङ्ग् शैतः हा तत्र शयनम् इत्युक्ते शयितः तत्र शिङ्ग् ी शि इति धातु अस्ति इत्युक्ते शयनम् इति विषयः okay. तत्र okay. शि धातुतः तत्र शयितः इति तप्रत्ययन्तरूपं किन् किञ्चित् भिन्नप्रकारेण भवति तत्र शयितः कृषिकः कुटीरे निद्रिस्तः आसीत् निद्रिस्तः आसीत् तदा पक्षिणां सङ्गीतगोष्ठी आरब्धा तदा पक्षिणां सङ्गीतगोष्ठी आरब्धं करोति एकैक अपि पक्षी कुजनेन स्वगानप्रतिभां प्रादर्शयत् एकैक एक पक्षी कुजनेन इत्युक्ते तत्र किमभवत् तत्र विविधता वर्तते खलु कुजने तत्र कूजनम् इत्युक्ते तत् ध्वनौ मध्ये तत्र विविधतां वर्तते अतः तत् स्वगानप्रतिभा इति कल्पना इति yeah. स्वगानप्रतिभा ओन् टेलेण्ट् इति प्रादर्शयत् प्रादर्शयत. तस्य प्रदर्शनं कुर्वन्ति स्म इति तेषु कोकिलः कश्चित् तया कुजति स्म तेषु कोकिलः मधुरतया कुज कुजति सर्वेषु कः कस्य कूजनम् अधिकं मधुरं कोकिलः कोकिलस्य कूजनम् इति तत् श्रुतवान् कृषिकः तस्य ध्वनिना आकृष्टः सन् अचिन्त्य अचिन्तयत् कृषिकः तत्र कृषिकः श्रुतवान् तस्य ध्वनिना आकृष्टः आकृष्टः आकृष्टः मीन्स् नाट् गुड् म्यूसिक् आकृष्टः इत्युक्ते गोट् अट्राक्टेड् ओके आकृष्टः आकर्षणं तत्र ध्वनिना आकृष्ट अचिन्त्य यदि एतादशकोकिलः मम सकाशे सकाशे स्यात् तर्हि प्रतिदिनं तस्य कण्ठामृतध्वनिं श्रोतुं शक् शक्नुयाम् इति सो एकादशकोकिलः मम सकाशे इत्युक्ते मम समीपे अधुना तत्र वृक्षे कूजनं प्रचलति वृक्षे कूजनं प्रचलति यदा मम समीपे भवि भवति चेत् किं भवति प्रतिदिनमेव मम इच्छानुसारेण तत् मधुरं ध्वनि तत् मधु तत् मधुरं कूजनम् अहं श्रोतुं शक्नोमि कण्ठामृतध्वनि इति कण्ठामृतध्वनि अमृतध्वनि अमृततुल्यध्वनि इति हा अहं यदा तदा अहं श्रोतुं शक्नोमि इति तस्य चिन्तनम् अस्तु तत्र प्रकृति प्रकृति प्रकृतया तत्र श्रवणं न भवेत् मम इच्छानुसारेण कुजनं अहं शृणोमि इति तस्य चिन्त अधुना अन्तिमं परिच्छेदं वयम् पश्यामः अनन्तरं समापयामः तत् धन्यवादः okay. अस्ति भारतमहोदय धन्यवादः अंतिमं परिच्छेदम् अम्बिकापतिमहोदय भवान् भवान पठतिवा अंतिमं ततः अप्रेद्युः एव सह जालं प्रसार्य तं कोकिलं आग्रह् आगृह्णात् ततः अगृह्णात् अगृह्णात् ततः निर्मिते पञ्जरे तं पक्षिणं संस्थाप्य सः अवदत् हे कोकिल त्वया क्षम्यमाणम् इष्यमाणम् णम् सर्वं, आहतम् आहारम् दास्यामि गायत्वं किञ्चित् वा प्रतिदिनम् मन्निमित्तम् इति मन्निमित्तं मत् निमित्तम् इति मन् मत् निमित्तम् इति अधुना पश्यन्तु तस्य चिन्तनं किं प्रतिदिनं मम इच्छानुसारेण कूजनं शृणोमि इति अतः सः जालं प्रसार्य जालमित्युक्ते नेठ् इति तत् कोकिलम् जा, अगृह्णात् ने नेट इति ने, नेट् बर्ड्स् ने, नेट् इति अतः ने, सः कोकिलम् अगृणात् कोकिलं, कोकिलं सः अगृणात् तेन कोकिल् कोकिलं तत्र पिञ्जरे सः स्थापितवान् लोहनिर्मिते पञ्जरे इति पञ्जरे पञ्जरे तं पक्षिणं संस्थाप्य सः अवदत् अधुना पञ्जरे बद्धाः पञ्जरे बद्धा कोकिला पञ्जरे बद्धः कोकिलः सः वदति रे कोकिल त्वया इष्यमाणां सर्वम् आहारं दास्यामि इत्युक्ते अधुना भवान् पञ्जरे बद्धः अहं सर्वं ददामि यत् किमपि इच्छति तत् सर्वं ददामि सर्वम् आहारं दास्यामि इत्युक्ते इष्यमाणम् इष्यमाणम् आहारं इत्युक्ते यस्य अन्यस्य भव भवति भवान् इच्छां करोति तत सर्वम् अहं ददामि गायत्वं गायत्वम् इत्युक्ते पश्यन्तु गाय इति लोट्लकाररूपम् अस्ति हा लोट्लकार लोट्लकार मध्यमपुरुष एकवचनं गै इति धातु गै शब्दे तत्र गाय इति भवति हा गै अनन्तरम् अनन्तरं तत्र गाय हि एतस्य लोपः भवति गाय गै लोट्लकार मध्यमपुरुष एकवचनं गायत्वं गीतगायनं करोतु किञ्चित् वा प्रतिदिनं मत् निमित्तम् तत अन्तिमं तत्र मत् निमित्तं हा अन्तिमः शब्दः तत्र अस्य मत् निमित्तम् अधुना सः बद्धः तस्य निसर्गसौन्दर्यं वा आम्रवृक्षस्य मधुरता इति निमित्तं नास्ति कस्य निमित्तं मम निमित्तं यदा यदा फार् मै यदा कदा अहम् इच्छां करोमि तदा एव मत् निमित्तं गाय अदि एतादृशः बन्धनः तत्र दृश्यते अधुना अग्रिमे वर्गे किं कुर्मः प्रथमं तु कथायाः समापनं कुर्मः अग्रिमे पठिष्यामः अनन्तरं पुस्तकं प्रति गमिष्यामि अस्तु अवस् क्षम्यतां तत् भवानेव शान्तिमन्त्रेण समापयति वा पूर्णमधः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेव विशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ओम् तत्सद् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः धन्यवादः धन्यवादः नीता भगिनी एकविषयं वदामि अहं द्विमासे कृते भारतवर्षे आगमिष्यामि एवं वा तत्कारणम् अहं कक्षां न आग आगमिष्यामि द्विमासे कृते एप्रिल् माद्रणं शृणोतु यदा शक्यते निश्चयेन भगिने एकं प्रश्नमस्ति Now we we have Have done till pay, page 88. Ah, uh, ah yeah. Ha, have we completed everything, in, uh, no, from... no. Uh, ah. no, no. न तत्र सङ्ख्यानाम् अध्ययनम् अस्माभिः करणीयमस्ति सङ्ख्यानाम् अध्ययनम् इतोपि तत्र संक्षिप्तगीता इति एकः विषयः तस्य अपि अध्ययनं वयम् अनन्तरं कुर्मः तत् Kinchi तत्र काठिन्यं वर्तते तत् वयम् अनन्तरं कुर्मः अस्तु भगिनी संक्षिप्तरीत्या गीतायाः सर्वश्लोकानाम् इत्युक्ते प्रत्य एकैकस्य अध्यायस्य सारांशरूपेण साररूपेण तत्र वर्तते तत् वयम् अनन्तरं कुर्मः अस्तु भगिनी अस्तु अस्तु अस्तु भगिनि धन्यवादः भगिनि धन्यवादाः धन्यवादः धन्यवादः धन्यवादः धन्यवाद नमो नमः